namasomaayasomaaya namo namasomaayachachomaaya namo namasomaayachachomaaya namo namasomaayach somaayachachomaaya somaaya somaayach rudraya rudrayaachachomaaya somaaya somaayach rudraya rudraya rudrayaachach rudrayaachach rudrayaachach rudrayaachach rudrayaachach रुद्राय च च रुद्राय रुद्राय च नमो नमश्च रुद्राय रुद्राय च नमः च नमो नमश्च च नमस्ताम्राय ताम्राय नमश्च च नमस्ताम्राय नमस्ताम् रायताम् राय नमो नमस्ताम् रायच ताम् राय नमो नमस्तां रायच तां राय च ताम् रायताम् राय च रुणाय ऋणाय च ताम् रायताम् रायचारुणाय रुणाय अरुणायत चारुणायत चारुणायत चारुणायत अरुणायत चारुणायारुणायत नमो नमस्तारुणायारुणायत नमः च नमो नमस्तत नमः सङ्गाय सङ्गाय नमस्तत नमः सङ्गाय नमः सङ्गाय सङ्गाय नमो नमः सङ्गायत सङ्गाय नमो नमः सङ्गायत सङ्गायत सङ्गाय सङ्गायत पशुपतये पशुपतयेत सङ्गाय सङ्गायत पशुपतये पशुपतये पशुपतये तच पशुपतयेत पशुपतयेत पशुपतये च पशुपतयेतच च पशुपतये पशुपतये च नमो नमश्च पशुपतये पशुपतये च नमः पशुपतय इति पशु पतये च नमो नमस्तच नम उग्रायोग्राय नमस्तच नम उग्राय नम उग्रायोग्राय नमो नम उग्राय चोग्राय नमो नम उग्राय च उग्राय चोग्रायोग्राय च भीमाय भीमाय चोग्रायोग्राय च भीमाय स्वभीमाय भीमाय च भीमाय च च भीमाय च भीमाय च भीमाय च भीमाय भीमाय च नमो नमश्च भीमाय भीमाय च नमः च नमो नमश्च नमो अग्रे भधायाग्रे भधाय नमश्च च नमो अग्रे भधाय नमो अग्रे बधाय अग्रे बधाय नमो नमो अग्रे बधाय च अग्रे बधाय नमो नमो अग्रे बधाय च अग्रे वधाय च चाग्रे चा बधायाग्रे बधाय चा च दूरे बधाय दूरे बधाय चाग्रे बधायाः अग्रे बधाय च दूरे बधाय अग्रे बधायेत्यग्रे बधाय च दूरे बधाया दूरे बधाय च च दूरे बधाय दूरे बधाय च नमो नमश्च दूरे बधाय दूरे बधाय च नमः दूरे बधायेति दूरे बधाया धाय च नमो नमश्च च नमो हंत्रे हंत्रे नमश्च च नमोहंत्रे नमो हंत्रे हन्त्रे नमो नमो हंत्रे च च हंत्रे नमो नमो हंत्रे च hantre chachantre hamtreh hamtrechahaniyasehaniyasehantreh hamtrechahaniyaseh chahaniyasehaniyasechahaniyasehchahaniyasehchahaniyasehchahaniyaseh हनीयसे च च हनीयसे हनीयसे च नमो नमश्च हनीयसे हनीयसे च नमः च नमो च नमो वृक्षेभ्यो वृक्षेभ्यो नमश्च च नमो वृक्षेभ्यः नमो वृक्षेभ्यो वृक्षेभ्यो नमो नमो वृक्षे हरिकेशेभ्यो हरिकेशेभ्यो वृक्षेभ्यो नमो नमो वृक्षेभ्यो हरिकेशेभ्यः वृक्षेभ्यो हरिकेशेभ्यो <đँ> हरिकेशेभ्यो वृक्षेभ्यो वृक्षेभ्यो हरिकेशेभ्यो नमो नमो हरिकेशेभ्यो वृक्षेभ्यो वृक्षेभ्यो हरिकेशेभ्यो नमः हरिकेशेभ्यो नमो नमो हरिकेशे भ्यो हरिकेशेभ्यो नमस्ताराय ताराय नमो हरिकेशेभ्यो हरिकेशेभ्यो नमस्ताराय हरिकेशेभ्य इति हरिः केशेभ्यः नमस्ताराय ताराय नमो नमस्ताराय नमो नमस्ताराय नमो नमस्ताराय नमः ताराय नमो नमस्ताराय ताराय नमःभवे सम्भवे नमस्ताराय ताराय नमःभवे नमः सम्भवे शम्भवे नमो नमः भवेदत शम्भवे नमो नमः सम्भवेदत सम्भवे सम्भवेत मयो भवे मयो भवेत शम्भवे सम्भवेत मयो भवे शम्भव इति शम् भवे वे भवे च मयो भवे जजमयो भवे मयो भवे च नमो नमश्च मयो भवे मयो भवे च नमः मयो भव इति मयः भवे ja namo namas <laughs> cha cha namas <laughs> shankarayah shankarayah namas <laughs> cha cha namas <laughs> shankarayah namas shankarayah shankarayah namo namas shankarayah cha cha shankarayah namo namas shankarayah cha cha शङ्कराय चषशङ्कराय शङ्कराय चमयस्कराय मयस्कराय च शङ्कराय शङ्कराय च मयस्कराय शङ्करायेतिशम् कराय चमयस्कराय मयस्कराय चमयस्कराय चमयस्कराय चमयस्कराय च मयस्कराय च चमयस्कराय च नमो नमश्च मयस्कराय च नमः मयस्करायेति मयः च नमो नमश्च च नमः शिवाय शिवाय नमश्च च नमः शिवाय नमः शिवाय शिवाय नमो नमः शिवाय च शिवाय नमो नमः शिवाय च शिवाय च शिवाय शिवाय च शितराय शितराय च शिवाय शिवाय च शितराय च शितराय शितराय च च शितराय च शिवतराय शिवतराय च च शिवतराय शिवतराय च नमो नमश्च शिवतराय शिवतराय च नमः शिवतरायेति शिव हराय च नमो नमश्च च नमस्तीर्थ्यायतीर्थ्याय नमश्च च नमस्तीर्थ्याय नमस्तेर्थ्यायतेर्थ्याय नमो नमस्तेर्थ्यायचतेर्थ्याय नमो नमस्तेर्थ्याय च तीर्थ्याय च तेर्थ्यायतेर्थ्यायथ कोल्याय कोल्यायच तेर्थ्यायतीर्थ्यायथ कोल्याय चकुल्याय चकुल्याय चचकुल्याय चचकुल्याय चचकुल्याय च कुल्याय चचकुल्याय चकुल्याय च नमो नमस् चकुल्याय चकुल्याय च नमो नमः चनमो नमस् च चनमपार्द्याय पार्द्याय नमस् च चनमपार्द्याय namah paryayay paryayaya namo namah paryayayachach paryayaya namo namah paryayayach paryayayach paryayay paryayayach paryayayach paryayayach paryayayach ्या भार्यायत भार्यायत भार्यायत भार्यायत अभार्यायत भार्याया भार्यायथ नमो नमस्ता भार्याया भार्याय नमः jana mo namas cha jana mah prataranaaya prataranaaya namas cha jana mah prataranaaya namah prataranaaya prataranaaya namo namah prataranaaya cha cha prataranaaya namo namah prataranaaya cha प्रतरणाय च प्रतरणाय प्रतरणाय चोत्तरणायोत्तरणाय च प्रतरणाय प्रतरणाय चोत्तरणाय प्रतरणायेति प्र तरणाय चोत्तरणायोरणाय चोत्तरणाय च चोत्तरणाय च चोत्तरणाय च उत्तरणाय चोत्तरणायोत्तरणाय च नमो नमश्चोत्तरणायोत्तरणाय च नमः उत्तरणायेत्युत् तरणाय च नमो नमश्च च नम आथार्यायातार्याय नमश्च च नम आथार्याय नमः आतार्यायातार्याय नमो नमः आतार्याय च चातार्याय नमो नम आतार्याय च आतार्याय च चा तार्याया तार्याय चालाद्याया लदाय च तार्याया तार्याय चालादाय आ तार्यायेत्याः तार्याय चालाद्यायालाद्याय चालाद्याय चालाद्याय चालाद्याय च आलाद्याय चालाद्यायालाद्याय च नमो नमश्चालाद्यायालाद्याय च नमः आलाद्यायेद्याः लाद्याय च नमो नमस्तनमस्त्यायशस्प्याय नमस्तद नमस्तस्प्याय नमषस्प्यायशस्प्याय नमो नमस्त्यायत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 फेण्यायत फेण्यायफेण्याय च नमो नमश्च फेण्यायफेण्याय च नमः च नमो नमश्च नमसि कत्यायसि कत्याय नमश्च नमसि कत्याय नमःसि कत्यायसि कत्याय नमो नमःसि कत्याय च सि कत्याय नमो नमसि कत्याय च सि कत्याय च सि कत्यायसि कत्याय च प्रभाह्याय प्रभाह्याय च सि कत्यायसि च प्रभाह्याय cha pravākhya ya pravākhya ya cha cha pravākhya ya cha Namas Soma Ya Soma Ya Namo Namas Soma Ya Chata Soma Ya Namo